गरुडपुराणम् आचारकाण्डम् अध्यायं 168 अण्ड् सिक्स्टि सर्वरोगहरं सिद्धं योगसारं वदाम्यहं शृणु शुश्रुतं संक्षेपात् प्राणिनां जीवहेदवे कषायकडु भोजनाद चिन्दा व्यवयव्याया तिक्ताम्लरूक्षाहारादिभोजनाद् चिन्ताव्यवयव्यायामभयशोकप्रजागराद् उच्चैर्भाषादिभारा च कर्मयोगादिकर्षणाद् वायुकुप्यधिपर्जन्ये दि जीर्णान्ये दिनसंक्षये उष्णाम्लवणक्षारकडुकाजीर्णभोजनाद् तीक्ष्णा तपाग्निसन्तापमध्यक्रोधनिषेवणाद् पिताहकाले भुक्तस्य मध्याह्ने जलदात्यये ग्रीष्मकालेऽर्धरात्रेऽपि पित्तं कुप्यति देहिनः स्वाद्वाम्लवणस्निग्धगुरुशीतादिभोजनाद नवान्नपिच्छिलानुप मां स्वादेसेवनादपि अव्यायाम दिवा स्वप्नशय्यासनसुखादिभिः देहपारुष्यसङ्कोचतोदविष्टम्भकादयः तथा च सुप्तारोमहर्षस्तम्भनशोषणम् श्यामत्वमङ्गविश्लेष्यबलमायासवर्धनम् वायोर्लिङ्गानि तैर्युक्तं रोगं वादात्मगं वदेद दाहोष्मपादसंक्लेदकोपरागपरिश्रमः कट्वं शववैगन्ध्यस्वेद मूर्च्छादितृभ्रमाः हारिद्रं हरितन्त्वच्च पित्तलिङ्गान्वितैर्नरः देहे स्निग्धत्वमाधुर्य चिरकारित्वबन्धनाध स्मै मिथ्यतृप्तिसङ्घादशोधशतिलगौरवम् कण्डूनिद्राभियोगश्च लक्षणम् कफसम्भवम् हेतुलक्षणसंसर्गाद्विद्याद्व्याधिम् द्विदोषजम् सर्वहेतुसमुत्पन्नम् त्रिलिङ्गं सान्निपातिकं दोषधाधुमलाधारो देहिनां देह उच्यते दे तेषां समत्वमारोग्यं क्षयवृद्धेर्विपर्ययः वसाशृमां समेदोऽस्ति मज्जाशुक्राणि धादवः वादपित्तकभादोषाविन्मोत्राद्यामला स्मृताः वायुशीतो लघुसूक्ष्मस्वरनाशीस्थिरो बली पित्तमम्लकडूष्णञ्च पङ्क्रीरोगकारणम् मधुरो लवणस्निग्धो गुरुश्लेषमादिपिच्छिलः गुदश्रोण्याश्रयो वायुपित्तं पक्वाश्रयस्थितम् कपस्यामाश्रयस्थानं कंधोवामूर्धसंधयः। वा मूर्धसन्धयः कढुतिक्तकषायाश्च कोपयन्ति समीरणं कट्वम्ललवणपित्तं स्वादूष्णलवणा येदयेव विपर्यस्ता क्षमा यैषां प्रयोजिताः भवन्ति रोगिणां स्वस्थाने सुखहेतवः चाक्षुष्यो मधुरो रसधादु रसधातु अम्लोत्तरो मनोहृद्यं तथा दीपनोज्वलतृष्णाग्नस्तिक्तशोधनशोषणः पित्तलोलेखनस्तम्भी कषायोग्राहिशोषणः रसवीर्यविपाकानामाश्रयं द्रव्यमुत्तमं रसपाकान्तरस्थायि सर्वद्रव्याश्रयं धृतम् शीतोष्णं लवणं वीर्यमथवा शक्तिरिष्यदे रसानां द्विविधपाको कडुरेव च भिषग्भेषजरोकार्थपरिचारकसम्पदः चिकित्साङ्गानि चत्वारि विपरीतान्यसिद्धये देशकालवयो वह्निः साम्यप्रकृतिभेषजम् देहः सत्त्वबलव्याधीन् बुद्ध्वा कर्म समाचरेद बहूतकनगो नूपः कथमारुदकोपवान् जाङ्गलोपरशाखीजरक्तपित्तगतोत्तरः संहृष्टलक्षणो भेदो देशसाधारणस्मृतः बाल आषोडशान्मध्य सप्ततेर्वृद्ध उच्यते कपपित्तानिलाप्रायो यथाक्रममुदीरिताः क्षाराग्निः शस्त्ररहिताक्षिणे प्रवयसिक्रियाः कुशस्य बृंहणम् कार्यम् स्थूलदेहस्य कर्षणम् रक्षणम् मध्यका यस्य देहभेदास्त्रयो मदाः स्थैर्यव्यायामसन्तोषैर्बोधव्यं यत्नदो बलम् अविकारी महोत्साहो महासाहसिको नरः पानाहारादयो यस्य विरुद्ध श्वसुखायोपकल्प्यन्ते तत्साम्यमिति कथ्यते गर्भिण्याश्लैष्मिकैर्भक्ष्यै श्लैष्मिको जायते नरः वातलैः पित्तलैस्तद्वत्समधादुर्हिता शनाद कृशोरुक्षोल्पकेशश्च चलचित्तो नरस्थितः बहुवाक्यरथस्वप्ने वादप्रकृतिको नरः अकालफलितो गौरप्रस्वेदी कोपनो बुधः स्वप्नेऽभिदीप्तिमत्प्रेक्षी पित्तप्रकृतिरुच्यते स्थिरचित्तस्वरसूक्ष्मप्रसन्नस्निग्धमूर्धजः स्वप्ने जलशिलालोगी श्लेष्मप्रकृतिको नरः सम्मिश्रलक्षणायुर्ज्ञेयो द्वित्रिदोषान्वयो नरः दोषस्येतरसद्भाव्येऽप्यधिका प्रकृतिस्मृताः मन्दस्तीक्ष्णोधविषमः समश्चैदि चतुर्विधाः कफपित्तानिलाधिक्या तत्साम्या जाढरो नलः समस्यपालनं कार्यं विषमे वादनिग्रहः तीक्ष्णे पित्तप्रदीकारो मन्दे श्लेष्मविशोधनं प्रभव सर्वरोगाणामजीर्णं चाग्निनाशनम् माम्लरसविष्टम्भलक्षणं तच्चतुर्विद्धम् आमाद्विषूचिका चैव हृदालस्यादयस्तथा वचालवणतोयेन चर्दनम् तत्र कारयेद् शुक्रभावो भ्रमो मूर्च्छा र्षो म्लात् अपक्वं तत्र शीताम्बुपानं वादनिषेवणम् गात्रभङ्गम् शिरोजाड्यम् भक्तदोषादयोगदान् तस्मिन् स्वापो दिवा कार्यो लङ्घनं च विवर्जनम् शूलगुल्मौ च विन्मूत्रस्थानविष्टम्भसू च कौ विधेयं स्वेदनं तत्रपानियं पानीयं लवणोदकम् आममम्लं च विष्टब्धम् कफपित्तानिलैक्रमाद आलिप्य जठरं प्राज्ञो हिङ्गु त्रयोषणः सैन्धवैः दिवा स्वप्नं अहितान्नैरोगराचिरहितान्नं तदस्त्यजेद् उष्णाम्बुवानुपानं च माक्षिखैपाचनं भवेद करीरदाधि मत्स्यैश्च प्रायः क्षीरं विरुध्य ते बिल्व शोणाच दीपनं कफवादघ्नं पञ्चमूलमिदं महद शालपर्णो प्र श्रीपर्णो बृहदि वृक्ष्यं कनीय पञ्चमूलकम् उभयं दश सूलं स्यात्सन्निपातज्वरापहं काशे पार्श्वशूले च शस्यदे सर्पोषि सर्पो शिप्रलेपादलकां जयेत् क्वाधाश्च दुर्गुणं वारिपादस्थं त्याश्च दुर्गुणं स्नेहं च तत्समं क्षीरं कल्कश्च स्नेहपादकः संवर्तितौषधैपाको बस् सौपाने भवेत् समः करोभ्यङ्गे मृदुर्नस्ये पाकोऽपि सम्प्रकल्पयेद् स्थूलदेहेन्द्रियाश्चिन्त्या प्रकृतिर्या त्वधिष्ठिता आरोग्यमिति तं विद्यादायुष्मन्दमुपाचरेद यो गृह्णातीन्द्रियैरर्धान्विपरीतान् स मृत्युभाक विषङ्मित्रगुरुद्वोषी प्रयारादिश्च प्रियारादिश्च यो भवेद गुल्फजानुललाडं जहनुर्गण्ढस्तथैवज भ्रष्टं स्थानच्युतं यस्य स जहात्यचिरादसून् वामाक्षिमज्जनं जिह्वास्यामाना सा विकारिणी कृष्णौ स्तानच्युतौ चोष्ठौ कृष्णास्यं यस्य त्यजेद इति गारुडे महापुराणे आचारकाण्डे वैद्यकशास्त्रपरिभाषानामाष्टषष्ट्यधिकशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् सिक्स्टी नैन् धन्वन्तरिरुवाच हिताहितविकेकाय अनुपानविधिम् ब्रुवे रक्तशालित्रिदोषघ्नम् तृष्णा मेधो निवारकम् महाशालि परम् वृष्यम् कल्मश्लेष्मपितः चीतो गुरुस्त्रिदोषघ्नप्रायशो गौरषष्टिकः श्यामकशोषणोरुक्षो वातलश्लेष्मपितः तद्वत्प्रियङ्गुनिवारकोरदोषाप्रकीर्तिदाः बहुवारसकृचिदश्लेष्मपित्तहरो यवः वृष्यशीतो गुरुस्वादुर्गोधूमो वादनाश नः कपपित्तास्त्रजिन्मुग्धः कषायो मधुरो लघुः माशो बहुबलो वृष्यपित्तश्लैष्महरो गुरुः अवृष्यश्लैष्मपित्तघ्नो राजमाशो निलार्तिनुद कुलब्धश्वासहि का हृत्कभगुल्मानिलापहः रक्तपित्तज्वरोन्माधो शीतो ग्राहीमम् उष्टकः पुंस्त्वासृक्कफपित्तघ्नचणको वादलस्मृदः मसूरो मधुरशीवसङ्गृही कफपित्तः तद्वत्सर्वगुणाढ्यश्च कलायश्चादिवातलः आखी कपपित्थघ्नो शुक्रलाच च तथा स्मृता अतसी पित्तला ज्ञेया सिद्धार्थकवादजिद सक्षारमधुरस्निग्धो बलोष्णपित्तकृत्तिलः बलघ्ना रूक्षलाशिदा विविधा सस्यजादयः चित्रकेङ्गुदिनालिका पिप्पली मधुशिग्रवः चव्याचरणनिर्गुण्डी तर्कारीकाशमर्दकाः सबिल्वा कपपित्तघ्ना कृमिघ्ना लघुदीपिकाः वर्षा भूमार्करौ तिक्तर सस्यादेरण्ठकाकमाजित्रिदोषहृद चाङ्गेरी कपवादग्निः सर्क्षपः सर्वदोषधम् तद्वदेव च कौस्सुम्भ तद्वदेव च कौस्मशुम्भं राचिकावादपित्तला नाडी चुचुर्मधुरशीतलः दोषघ्नम् पद्मपत्रञ त्रिपुणं वादकृत्परं सक्षारः सर्वदोषघ्नो वास्तुघोरोचनः परः तण्डुकीयो विपहरपालङ्ग्याश्च तथा परे मूलकं दोषकृत्स्रामं स्विनं वादक पदम सर्वदोषहरम् ह्यद्यम् कण्ठ्यम् तत्पक्वमिष्यदे पदोलं कर्कोटकम् सवार्ताकम् पदोलङ्कारवेल्लकम् कुष्टमेघज्वरश्वासकासपित्तकभापहम् सर्वदोषहरम् हृद्यं कूष्माण्डम् बस्तिशोधनम् कलिङ्गालाम्बुनि पित्तनाशिनी वादकारिणि त्रपुषोर्वाजुगे वादश्लेष्मले पित्तवारणे वृक्षाम्लं कफवादघ्नं कफवादनुद कफवादनुदवादघ्नं दाढिमं ग्राहि नागरङ्गफलं गुरु केशरं माधुलुङ्गं च दीपनं कभवादनुद वादपित्तहरो माशत्वक्स्निग्धोष्णानिलापहः सरमामलकम् वृष्यं मधुरं हृद्यमम्लकृत भुक्कृतप्ररोचकपुण्या हरीदक्यमृदोपमा त्रंसनी कफवादग्नी ह्यक्षत्तद्वत्रिदोषजिद वादश्रेष्महरम् त्वम्लम् स्त्रंसनम् तिन्दिडीफलम् दोषलं लकुजम् स्वादुबकुलम् कफवादचिद गुल्मवादगफ श्वासका सघ्नम् बीजपूरकम् कपित्थं ग्राहि दोषघ्नम् पक्वं गुरुविशापकम् कफपित्तकरम् बालमापूर्णं पित्तवर्धनम् पक्वाम्रं वाद कृन्मांस शुक्रवर्णबलप्रदम् वादघ्नम् कफपित्तघ्नं ग्राहि विष्टम्भिजाम्भवम् किन्दूकं कपवादघ्नम् बदरं वाद पित्तहृद विष्टम्भिवादलम् बिल् प्रियालम् पवनापहम् राजाधनफलं मोजम्बनसं नारिकेलजम् शुक्रमांसकराण्याहुस्वादुस्निग्ध गुरूणि च द्राक्षामधुकखर्जूरं कुङ्कुमं वादरक्तजिद मागधीमधुरापक्वाश्वासपित्तपरापरा आर्द्रकं रोचकं वृष्यं दीपनं कफवादहृद शुण्डीं मरीचपिप्पल्य कपवादजितो मदाह अवृष्यं मरीजं विद्यादितिवैद्यकसम्मदम् गुल्म शूलविबन्धघ्नं हिङ्गुवादकपापहं यवानी धन्यकाजाज्यवादश्लेष्मनुदपरं चक्षुष्यं सैन्धवमृष्यं त्रिदोष शमनं स्मृतं सौवर्चलं विबन्धघ्नमुष्णं हृच्छूलनाशनम् उष्णं शूलहरं तीक्ष्णम् विडङ्गं वादनाशनम् रोमकं वादलं स्वादुरोचनं क्लेदनं गुरु हृत्पाण्डुगलरोगघ्नम् यवक्षारोग्निदीपनः दहनो दीपनस्तीक्ष्णस्सर्जिक्षारो विदारणः दोषघ्नम् नाभसं वारि लघु हृद्यं विशापहं नादेयं वादलं रूक्षं सारसं मधुरलघु वादश्रयश्महरं वार्प्यं ताडागं वादलं स्मृदं रौच्यमग्निकरं रूक्षं कभघ्नं लघु नैच्छरं दीपनं पित्तलं मौद्धिदं पित्तनाशनम् दिवार्क किरणैर्जुष्टं रात्रौ चैवन्दुरश्मिभिः सर्वदोषविनिर्मुक्तम् तत्तुल्यम् गगनाम्बुना उष्णं वारिज्वरश्वास मेधोनिलकभापदम् शीतत्रिदोषघ्नमुषितं तच्चदोषलम् गोक्षीरं वादपित्तघ्नं स्निग्धं गुरुरसायनं गव्याद्गुरुतरं स्निग्धं माहिष्वाह्निनाशनं चागं रक्तादिसारघ्नं कासश्वासकफापहं चक्षुष्यं जीवनं स्त्रीणां रक्तपित्ते चनावनम् परं वादहरं वृष्यं पित्तश्लेष्मकरं दधि दोषघ्नम् अन्धजादन्तुमस्तु श्रोतो विशोधनं क्रकण्यार्शोर्दितार्तिघ्नं नवनीतं नवोद्धृतं विकाराश्च किलाडाद्या गुरवः कुष्ठभेदवः परम् ग्रहणीशोधार्षपाण्ड्वदीसारगुल्मनुद त्रिदोषशमनं तक्रं कथितं पूर्वसूरिभिः पृश्यं च मधुरं सर्पेर्वादपित्तकभाप गव्यं मेध्यं च चाक्षुष्यं संस्काराच्च त्रिदोषजिद अपस्मारगदोन्मादमूर्च्छाघ्नं संस्कृतं हृदम् अजादीनां च सर्पोषि विद्याद् गोक्षीरसद्गुणैः कफवादहरमूत्रं सर्वकृमिविषापसं पाण्डुत्वोदर कुष्टार्षशोध गुल्मप्रमे सनुद दश्लश्महरं वल्यं तैलं कश्यं तिलोद्भवं सार्षपं कृमिपाण्डुघ्नं कभमेधोनिलापहं क्षौमं तैलमचक्षुष्यं पित्तहृद्वादनाशनम् अक्षजं कपपित्तग्नं केश्यं त्व त्रिदोषघ्नं मधुप्रोक्तं वादलञ्जप्रकीर्तितं हि काश्वासकृमिच्छर्दि मेघतृष्णा विशापहम् इषवोरक्तपित्तघ्नो बल्या वृष्या कभप्रदाः प्राणिदं पित्तलं कण्डम् मृष्यम् तथा स्निग्धम् सा स्वाद्वासृक्पित्तवादजिद वादपित्तहरो रुक्षो वादघ्नकभकृद्गुडः सपित्तघ्नपरपद्य पुराणोऽसृक्प्रसादनः रक्तपित्तहरा वृष्या सस्नेहा गडशर्करा सर्वपित्तकरं मध्यमम्लत्वात् कभवादरिद रक्तपित्तकरास्तीक्ष्णास्तथा सौवीरजादयः पाचनोदीपनपद्यो मण्डस्याद्भृष्टतण्डुलः वादानुलोमनि लघ्वीपेया वस्तिविशोधनी सद डिमव्योषा सगुडा मधुपिप्पली इन्द्रियं सुकृदा पेयाकाशश्वासप्रवाहिकाः पायस कफकृद् बल्यकृशरावादनाशिनी सुधौधप्रस्तुतस्निग्धः सुखोष्णो लघुरोचनः कन्दमूलफले है साधितो बृम्मणो गुरुः एष दुष्णसेवना च लघुसुपः सुसाधितः स्विन्ननिष्पीडितं शाकं हितं स्नेहादिसंस्कृतं दाडिमामलकैर्यूषो वन्यकृदपितः श्वासकासप्रदिशाय कभग्नोमलकैकृतः युवकोलकुलधाना यूषकण्ढ्यो निलापहः मुद्गामलकजोग्राही श्लेष्मपित्तविनाशनः सगुडं दधि वा दग्नं सक्तवो रूक्षवादुलाः कृदपूर्णोऽग्निकारी वृष्या गुर्वो शश्कुली शष्कुली ब्रह्मणा सामिषा भक्ष्यपिष्टका गुखस्मृताः तैलसिद्धाश्च दृष्ठिघ्नास्तो यस्विन्नाश्च दुर्जराः अत्युष्णामण्डकापध्या शीतला गुखो मताः श्रमतृष्णादिनाशनम् अन्नपानादिना रक्षा कृस्याद्रोगवर्जित अनुष्णशिखिकण्डाभो विषञ्चैव विवर्णकृत गन्धस्पर्शरसास्तीव्राभोक्तुश्च स्यान्मनो व्यथा आघ्राणे वेभदु भिषग्वरैः बेभदुर्जृम्भणाद्यं वे स्याद्विषसैतत्तु लक्षणम् इति श्रीकारुडे महापुराणे आचारकाण्डे अनुपानादिविधिकथनं नामैकोन सप्तत्यधिकशततमोऽध्यायः ओ अध्यायम् हण्ड्रेड् एण्ड् सेवेण्टी धन्वन्द्वरिरुवाच ज्वरोष्टसङ्कादा गन्तुजस्मृतः पर्पणकोशीरचन्दनोदीच्य नागरैः श्रुतशीतम् जलम् दद्यात् पिपासा ज्वरशान्तये नागरम् देवकाष्ठम् च धान्यकम् बृहदीद्वयम् दद्यात्पाचनकम् पूर्वम् ज्वरितायज्वरापः रघ्वभयामुस्तातिक्दा ग्रन्थिकनिर्मितः कषाय पचनसा मे सशूले च ज्वरेहिदः समाह समः स्वप्नं पिष्ट्वाम्भस्सानस्यम् कुर्यात् संज्ञा प्रबोधनम् त्रिवृद्विशालात्रिफला कडुकारधैकृतः सक्षारो भेदनक्वाधपेयः सर्वज्वरापहः क्वाधतृतीयकं हन्ति शर्करा मधुयोजितः अपामः जडाकट्यां लोहितैः सप्ततन्दुभिः बद्ध्वा वारेरवेर्नूनं ज्वरं हन्ति तृतीयकं गङ्गाया उत्तरे कूले अपुत्रस्ताप सोमृतः तस्म त्रिलोदक दध्यान्मुतिको ज्वरा गुडोच्यावाधकल्काभ्यासक मृद्वी का बलाया सिद्धास्नेहा ज्वरद् ज्वरिद धात्री शिवाकणावह्निक्वाध सर्वज्वरान्तकः ज्वरादिसारहरणमौषु प्रवदाम्यध्रीपर्णो बला विल्नागरोत्पलधान्यकैः पाठेन्द्रय बभू निम्ब स्तपर्पडकैः श्रुताः जान्द्या मम दीसारं सज्वरं समहौषधाः नागरादिविषामुस्त भू निम्बामृतवत्सकैः सर्वज्वरहरक्वधसर्वादी सारनाशनः मुस्त पर्पडकदिव्यशृङ्गवेर श्रुतं पयः शालपर्णो पृश्रीपर्णो बृहदी कण्डकारिका बलाश्ववादिपाठानागरधान्यगं यददाकारसंयोगे हिदं सर्वाधिसारिणाम् बिल्वचूतास्ति क्वाधश्च खण्डं मध्वतिसारनुत अधिसारे हि तद्वत् कुडज त्व कणायुता वत्सकादिविष विश्वकणाकन्दकषायकः चिकित्सादग्रहाण्यास्तु ग्रहणी चाग्रिनाशिनी चित्रकाक्वधक्लकाभ्याम् ग्रहणीघ्नम् घृदम् हविः गुल्मशोधोदरप्लेह शूलार्षोघ्नम् प्रदीपनम् सौवर्चलम् सैन्धवम् विडङ्गौद्धिविदमेव च सामुद्रेण समम् पञ्चलवणान्यत्र योजयेद भेषजं शस्त्रक्षाराज्ञ्यस्त्रिधा वै गुडूडीं पिप्पलीयुक्तामभयां कृदभर्जितां त्रिवृ दर्शो विनाशार्थंकम् भक्षये दम्ललोणिकां दम्ललो तिलेक्षुरससंयोगश्चार्षकुष्ठविनाशनः पञ्चकोलं समरिजम् स त्र्यूषणमधाग्निकृत हरीतकी भक्ष्यमाणनागेरणगुडेन वा सैन्धवोपहितावापि साधत्येनाग्नि दीपनि फलत्रिकामृता साधिकृदाबूनिम्बनिम्बजः क्वाधह क्षौद्रयुदो पाण्डुरोगं सकामलम् त्रिवृक्ष त्रिफला श्यामापिप्पली शर्कगमधु मोदकसन्निपादान्तो रक्तज्वरापह वासायां विद्यमानायामाशायां जीवितस्य ज रक्तत्तीक्षयी काशी आडरूपकमृद्वीकापध्याक्वादः स शर्करः क्षौद्राढ्यकाशनिश्वासरक्तपित्तनिबर्हणः वासारसस्खण्डमधुयुदपिदोदरक्तजिदसल्लकी बदरी जम्बुप्रियालाम्रार्जुनं धवः पीतं क्षीरञ्जमध्वाढ्यं पृथक्क्षोणिदवारणं समूलफलपात्राया निर्गुण्ढ्या स्वरसायर्गृदं। सिद्धं पीत्वा क्षयक्षीणि निर्व्यादिर्भादि देववद हरीतकीकणाशुण्ठीमरीचं गुडसंयुधम् का सघ्नो मोदकप्रोक्तः तृष्णारोचकनाशनः कण्डकारिगुधूजिभ्यां पृथ त्रिंशत्पले रसे पिबेद्भार्गो स तैलाक्तं स्वरभे देवा खादिरं धारयेन्नुके पद्यां पिप्पीलिकायुक्तां संयुक्तां नागरेण वा विडङ्गत्रिलाचूर्णं छर्दिहृन्मधुना सह पिबोन्माक्षिकसंयुदम् चर्दि सर्वां प्रणुदति तृष्णाञ्चैवापकर्षदि त्रिफलाभ्रममूर्च्छा हृत्पिदा सा मधुनापि वा पञ्चगव्यं हृदम्पानात्तपस्मारग्रहादिनुद कूष्माण्डकरसौ वाद्यम् सयष्टिकं तदर्थकृद भ्रामीरसवचाकुष्टशङ्खपुष्पीभिरेव भिरेवचा पुराणं सेव्यमुन्मादग्रहा पस्मारद्घृणम् पस्मारद्धृनुतम् अश्वगन्धाकषाये च कल्के क्षीरे च दुर्गणे कृतपक्वन्दुवादघ्नं मृष्यं मां सायपुत्रकृत नीलीमुण्डीरिकाचूर्णं मधुसर्पिः समन्वितं चिन्नाक्वादं पिबन् हन्दिवादरक्तं सुदुस्तरं सुगुडापञ्चपद्याश्च कुष्ठार्शोवादसाधनाः गडचीश्वरकं कल्कं चूर्णं वा क्वाधमेव वादरक्तान्तकं काला गूडोची क्वाधकल्कतः कुष्ठव्रणादिशमनं श्रुतमाजं सदुग्धकं त्रिफला गुग्गुलुर्वादरक्तमूर्च्छापहारकः ऊरुस्तम्भविनाशाय गोमूत्रेण जगुग्गुलुः शुण्डी गोक्षुरकक्वाधसामवादार्तिशूलनद दशमूलामृतैरण्ढरास्नानागरदारुभिः क्वाधो हन्ति माहशोधम् मरीचगुडसंयुतः कासघ्नो मोदकप्रोक्तस्तृष्णारोचकनाशनः कण्डकाजिगुडूजिभ्यां पृद्ध त्रिंशत्पले रसे पृद्धसिद्धं क्रुधं चैव कासनुधृदिदीपनः कृष्णाधात्रीसिदाशुण्डी मरी धयेरण्ड तैलेन सामं हन्ध्यनिलं गुरुम् बला पुनर्नवैरण्ड बृहदिद्वयगोक्षुरैः सहिङ्गुलवर्णवेदं वादशूलविमर्दनम् त्रिफलानिमम्बयष्टीककु कडुकारद्वधै श्रुतम् पाययेन्मधुना मिश्रन्दाकशूलोपशान्दये त्रिफलापसयष्टिका परिणामार्तिनाशनाः गोमूत्रशुद्धमण्डूरम् त्रिफलाचूर्णसंयुधम् विलिहन्मधुसर्पिभ्याम् शूलम् हन्दितृदोषम् त्रिभृत्कृष्णा हरीतख्यो द्वि चतुष्पञ्चभागिकाः गुटिका गुडतुल्यास्ता वि ढ्वि बन्धकदापहाः हरितकीयवक्षार पिप्पली त्रिवृतस्तथा कृतैश्चूर्णमिदम् पेयमुदा वर्ता विनाशनं त्रिवृद्धरितकीष्यामा स्नुही क्षीरेण भाविताः वटिकामूत्र पीतास्ताश्रेष्ठाश्चानाः भेदिकाः प्रियक्षणोत्रिफला धन्यविडङ्गचव्यचित्रकैः कल्कीकृतैर्हृदं सिद्धं संस्कारं वादगुल्मनुद मूलम् नागरमानीदं सक्षीरं हृदयार्तिनुद सौवचलम् साव... तदर्धं दो शिवानाञ्च कृतं पिबेद कणापाषाणभेदैर्वा शिलाञ्चतुक चूर्णकं तण्डुलीभिर्गुडेनाभिमूत्र कृच्छ्रीदिजीवी अमृदानागरीदात्री वाजिगन्धात्रिकण्डकान् प्रबिभेद्वादरेगार्थसशूलो मूत्रकृच्छ्रवान् सितातुल्यो यवक्षारसर्वकृच्छ्रनिवारणः कारसो वापि स क्षौध्रकृच्छ्रनाशनः लवणं त्रिफला कल्कैर्मूत्राघातहरं स्मृदं मूत्रे विरुद्धे कर्पूरचूर्णं लिङ्गे प्रवेशयेद क्वाधश्च शिग्रुमूलोद्धकटूष्णोऽस्मानिपादनः सर्वमेह हरो धात्र्या रसक्षौद्रनिशायुधः त्रिफला दारु दार्व्यष्टक्वाथः क्षौद्रेणमे अस्वप्नम् च व्यवायम् च व्यायामाश्चिन्तनानि च स्थौल्यमिच्छन् पपर्यति कृतम् यवश्यामागभोजिस्तास्तौल्यकृन्मधुवारिणा उष्णमन्नं समण्डं वा पिबन् कृशतनुर्भवेद सचव्यजीरकं योषा हिङ्गु सौवर्चलामलाः मधुना रक्तवपिता मेधोग्ना सर्वदीपनाः चतुर्गुणे जले मूत्रे द्विगुणे चित्रकाणि च कल्कैसिद्धकृतप्रस्थं सक्षीरं च ठरी पिबेद क्रमवृद्ध्या दशाहानि दश पैपालिकं दिनं वर्धयेत् पयः सार्धं तथैववापानयेत्पुनः क्षीरषष्टिकभोजि स्यादेवं कृष्णसहस्रकम् ब्रह्मणम् मुद्गमायुष्यम् प्लीहोदरविनाशनम् पुनर्नवाक्वाधकल्कैसिद्धं शोधहरम् कृतं गावामत्रेण संसेव्यं पिप्पलीवापयोन्विदाह गुडन वा भयां तुल्यां विश्वं वा शोधरोगिणा तैलमेरण्डजम्बीत्वा बलासिद्धं पयोऽन्वितम् आधमानशूलोपचिदा मन्त्रवृद्धिजयेन्नरः भ्रष्टोरुचकतैलेन कल्कपध्याः समुद्भवः कृष्ण सैन्धवसंयुक्तो वद्धिरोगहरः परः निर्गुण्डीमूलनस्येन गण्डमाला विनश्यदि स्मृही गण्डीरिकास्वेदो नाशये दर्बुदानि च हस्तिकर्णपलाशस्य कलगण्डं तु लेपदः दत्तूरैरण्ड निर्गुण्डी वर्षा भुष्य गृहसर्षपैः प्रलेपश्लीपदं हन्धिचिरोद्धमदिदारुणं शोभाञ्जनकसिन्धृत हिङ्गुं विद्रधिनाशनं शरपुङ्गामधुयुता यात्सर्स्व्रह्णगेपणी निम्बपत्रस्य बाले पश्ययुधुव्रणगेपणः त्रिभला कदिरो दर्वो न्यग्रोधो व्रणशोधनः सद्यः क्षतं व्रणं वैद्यस्य सशूलं परिषेचयेद यष्टिमधुकयुक्तेन किञ्चिदुष्णेन सर्पिषा बद्ध्वा गन्तु व्रणान्वैद्यो कृतक्षौद्रसमन्वितां श्रुतां क्रियां प्रयुञ्जेद पितरक्तोऽश्मनाशिनीं क्वाधो वंशत्वघेरण्डश्वदंश्र वनिता कृदः स किं गुत्सैन्धवीधकोष्ठस्थं श्रावयेदसृग यवकोलकुलधानं निःस्नेहेनरस्येन वा भुञ्जितान्नं यवाग्वावा वा पीवेत् सैन्धवसंयुधं करञ्जाष्टनिर्गुण्ढीरसो हन्याद्व्रणक्रमीन् त्रिफलाचूर्णसंयुक्तो गुग्गुलुर्वटगीकृतः निर्यन्द्रणो घ्नो व्रधनगेपणः दुर्वास्वरससिद्धं वातलं तलं कम्पिल्लकेन वा दार्वो त्वचश्च कल्केन प्रधानं व्रणरोपणम् इति श्रीकारूडे महापुराणे आचारकाण्डे ज्वरादिचिकित्सानिरूपणं नाम सप्तत्युत्तरशततमोऽध्यायः ओम्